प्रातरश्विना प्रातभगम् भूषणम् ब्रह्म नस्पतिम् प्रातः सोममुतरुद्रम् भुवेम प्रातर्जितम् भगमुद्रम् भुवेम भयम् पुत्रमधितेर्योभिधत्ता आद्रश्चिद्यम् मन्यमानस्तुरश्चिद्राजा सिद्यम् भगम् भक्षीत्याह भगप्रणेदर्भगसत्यराधो भगे मान्मुदवाददन्नः भगप्रणो जनजगोभिरश्वैर्भगप्रणवन्तः स्याम उदेनानीम् भगवन्त श्यामो ताचित्वबुतमध्ये अन्नाम् उतोलीतामघवन् सूर्यस्य वयम् देवानाम् सुमदौ भगवास्तु देवास्तेन वयम् भगवन्तः स्याम हन्वा भगदर्वजिद्यो हवीति सनो भगपुरजेता भवेह स मध्वराजोषसो न मन्तदधिग्रावेशु चेपदाय अर्वाचीनम् भगं सुविदम्भम् नो तथा श्वावर्णो मदीर्णबुषा वीरवतीच्छन्दु भद्राः धृतम् दुभाना विश्वप्रबीता यूयम् पारातस्वस्तिभिस्वदानः ब्रह्माणो अङ्गीरसो नन्दप्रकलम् दनम् न भन्यस्य वेदु ुकृतो न मन्दयुद्या तामध्वी अध्वरस्य पेषाः सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वासुते हरितो रोहितश्च एव सद्मन्नरुडावीरवाहो भुवे देवानाञ्जलीमानि सत्तः समूहो यज्ञम् अभयम् नमोभिः प्रभूता मन्द्रोदीरिकुपाके यजस्व सुपर्वणिकदेवानायज्ञयाः मनमादिम्प्रभृत्याः यजा वीरस्य रेवतो दुरोतिराधिकेतत् सुप्रीतो अग्निः सुधीतोतमासनिषेधामियत्यै यिमन्नोः अग्ने अध्वरम् जोढस्व मरुत्स्विन्द्रे यशसंनः परिभिः स ददा मुदा सोसन्दामित्रावरूनाय जेया एवाग्निम् रस्याम्रजिष्ठो राजस्कामो विश्वस्य स्तौद् इषम् रजम्ब्रथद्वाज भस्मे यूयम् पातस्वस्तिभिस्वरानः ज्ञेषु देवयन्तो अत्रैः येषाम् ब्रह्माण्यमानि विप्राविष्वग्विजन्तिनो न शाखाः दुहेत्वच्छमानसो धृताचीः श्रीतपर्यधूर्ध्वासोतीम् श्रीदेवयोन्यसुः ो न मातरम् विभृत्रा नो देवासो बर्हि सरन्तु आविश्वाचीविद्या रक्मग्नेमानो देवता तामृगस्वः हे धीषवन्तजोषमायजत्रा सुभादुहानाः ज्येष्ठम् वो अजमहावसू नामागम् यतिष्ठानो अग्ने विक्ष्वादस्य त्वजा वयम् सहसा वन्नास्त्राः राजा समादो अरिष्ठा यूयम् पात स्वस्तिभिस्वदानः प्रथमम् समिद्धम् भगमूतये इत्याः पृथिवी अपस्वाः नोधयन्तीराणा यज्ञमुपप्रयन्ताः लिलाम् देवीम् हरिविषि सादयम् तोऽम धान अग्निमुपब्रुवृतमम् दौर्यङ्गाम् रम् मंस्ततो आवयन्तु प्रथमोपाद्यर्वाग्नाम् भवति प्रजानन् संविधानवृषसा सूर्ये एनादित्येभिर्वसुभिरङ्गीरोभिः आनोदधिग्रा पथ्यामलकृतस्य पन्था मन्दे तबाहु शृणोतु नोदै जम् शब्दो अग्निः शृण्वन्तु विश्वे महिषा ऊराः आ देवो यातु सविता सुरत्मोऽन्तरिक्षप्रा वह मा नो अश्वैः हस्ते तथा दोनर्याः गुरूणे प्रसुवन्तदस्य बाहूशी चिरा बृहन्ता हिरञ्जलादिवो अन्ताम् कनष्टाम् नूनम् तो अस्य महिमातासूरश्चिदस्मा अनूदात तस्याम् सुखा विता सहा पितासह बाधाः विषत्वसूपजर्वसूमिः मतीव रुचिेन सितारम् सुजिह्वम् न गर्भस्त्यमेव सुलिम् चित्रम् वयोः बृहदस्मे दधातु यूयम् पाहदस्वस्तिभिस्वदा नः इमा रुद्राय स्थिरधम् वने गिराः मे देवाय सुधामे अगाधाय सहामानाय मेधसे दिग्मायूधाय भलता शृणो दूनः सविक्षये लक्ष्म्यस्य जन्म नः साम्राज्येन दिव्यस्य चेतति अपन्नवन्तिरुप नो दुनश्चरा न भीमो रुद्रजासूनो भव राते दिद्युदपदृष्टादिवसीक्षया चलाधिपतिसारेण कुमः सहस्रम् तेष्वपि वातभेषजामानस्तोकेषु तनजेषु दीर्घः मानो बीरुद्रमाबलादामाते भोभः प्रसीतौ हीलिकस्य आनो भज बी जीवशंसे यूयम् पात स्वस्यभिः सदा नः आपोयम् वः प्रथमन्दे अम्बो वयम् श्रुचेम रित्रमज्जेदपृषम् मधूमन्तम् वनेम तोर्मिमा वो मधूमत्तमम् भोपान्नपादमत्वा धुयेमा यस्मिन्विन्द्रो वसोभिर्मादजा ते तमः श्यामदे वयम् दो वो अद्य सतपावित्रा सुगजामदन्तीर्देवीर्देवानामपीयन् द्विपाथाः इन्द्रस्य नमीनन्द्यदा निसिन्धुभ्यो यासूर्यो हृतवद्युत या सूर्यो रश्मिभिरा ददानयाभ्येन्द्रो अरदद्धातु मौर्म्यम् हेन्भवो वरी बोधातनानो यूयम्पादस्मस्तिभिश्चनो वाजामादगद्भ्रमस्मै नो मघवानः सुतस्य जातां स्माङ्ग्रेणे मृत्रम् ये जिद्धि पूर्वी रभिषन्ति शासा विश्वाम् कन्यभूपरतान्वन् इन्द्रो विद्वान् विभुक्षावायो अन्यश्त्रोर्विधम् नूदेवासो बलीवः कर्तमानो भूतलो विश्वे अस्मेषम् सर्वोदीरम् यूयम् वात स्वस्तिभिः स्वरानः समुद्रज्येष्ठासलिलस्य मध्यात् पुना च्जलीविशमानाः ी वृषभो देवी मातु या मा आवो दिगाश्रवन्ति खनित्रे मा भूतवायास्वयम् यः पावकास्तापो देवी रिगमामा बन्तु रो नो याति मध्ये पश्यन्नाम् वदस्तु तस्तु च यो यापावकास्तापो देवी मामो यासु राजापरो नो यासु सोमो विश्वे देवायासु जम् ऐश्वाननुया स्वप्रविष्टो देवीरिह माम् कुलाजद्विश्वजन्मनागम्यजकाबन्धुदृशीकम् दिनोत धेमासरोः यद्विदान्वरो दक्षीवन्दौ परिहत् अग्रष्टच्छोदन्न मामाद्ये नरपादाविदत्सरोः यच्छल्मलौ भवधियम् नदीरोषादीभ्यः परिजाय देभ्याम् इष्टे देवानिरितस्तत्सुवन्तु मा माम् मध्ये नरपादाविदत्सरोः मता श्चिवादेव सर्वाः आदित्या नाम वा सारूनेन स क्षेम हि सर्वमेन ो आदित्यासो अधिमानयन्ताम् मित्रो अद्य मामरुणो रजिष्ठाः अस्माकम् सन्तु भवानस्य गोपाः पिबन्तु नो अद्य आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्वानुभवश्च विश्वे इन्दो अग्निरश्विश्व आदित्या सोऽयस्यामूर्ते भद्रावसवोमक्षत्रा स नेमवित्रावणासनन्तो भवे मज्जा वा, वा, वा पृथिवीभवन्तः स्तन्नो वरू नो मामहन्तरायगोपाः मा भो भुदेवान्ये रवोङ्गीरसो रक्षन्तरत्नम् देवस्य समिन्द्रीयाः नो महान् यजत्रोऽस्वे देवाः समानसोऽषन्त यज्ञे पृथिवीनोभित्रे पूर्वे कमलो ग्रन्थः पुरोमयिरे देवपुत्रे प्रपूर्वजे पितरा नव्यभिर्गेभिग्ध्वंसने ्या वा पृथिवी दैर्ये न जेन वाम् परोधम् उतो हि वाम् रत्नरेला निहन्ति ब्रूणि वा पृथिवी सुदादे आस्मे धलस्पृधो युयूयम् पात स्वस्तिभिः स्वराः ो अष्ट प्रति जानी यस्वान् स्वाहा भगवानः प्रजितनो जुगुरसनो भवते प्रकरणो नये जिग यस्वा लो गो भिर त्वेभिरिन्दो त्याः क्षेमायोगे वरम् नो यूयम्पास्य कृ रूपाण्याः जदु नारमे जदीच्छुभो सेनाम् रायसारमे यतस्करम् वा पुनः स्वर सोदरेन्द्रस्य राजसि निस्मान् दुच्छुनायसे स्वाभां सोकरस्य दर्द्री तवर्दर्तुकरः सोदरे निन्द्रस्य राजसि निस्मान् दुच्छुनायसे निषु स्वाभा सस्तु माता सस्तु पिता सस्तुष्वातस्तु विश्वतीः सर्वे ज्ञातयस सहस्राङ्गा वृषभो यस्रा मुद्रा दुदात् तेना सहस्येना भयं यजनान् स्वापयामसिजा बह्वे सजाना सजा देव्याः सर्प शीवरीः पुण्या गन्धास्ताः सर्वा स्वापयांसि स्वप्न स्वप्नाधिकरणे सर्वम् विश्वापयासूरम्यान् स्वापयद्योपञ्जाग्रयादहम् अजगरो नाम सत्यधितस्ते ना, न त्वा स्वापयामसि सर्पः सर्पो अनसर्पिरयोन् अस्य सर्पा सिन्धवस्तस्य कालिको नाम सर्पो नमनागसहस्रमुन हृदयः सोदा यो नाराय नमः यदि कालिकादूतस्य यलिकाः कालिकाद्भदात् भागते जन्मभूनिम्रान्तो निर्मितो तृप्ताम् चर्मातूढस्यैतृष्णे पपामेव यशस्करम् बलानन्दम् बभुत्वम् नयेभूव सङ्गेनारा सुमतिङ्गल्यम् स्वतम् दीर्घमायोः नाम सर्पो यो दृष्टि विषमुच्चरे तस्य सर्पस्य सर्पत्वम् तस्मै स नमोऽसूदे के कालसमयेदरसमर्याथा स्वहा ङ्गमित्रे निजोत्रम् अभिस्वभोभिर्मितो वा बन्धवानस्वन सेना एतानि धीरो दूतो महीषमार सा विरुद्धीरस्तु सदा सहन्ति पुष्यन्ति नृम्णम् ष्ठाश्रुभासोऽभिष्टाश्र्याश्वाग्राः विष्मान् सुद्रो वस्तु श्वास्त्रोधीनाम् ऋसर्धश्चिद्युम् माबो धर्मः वो नामा हुवे दुरायत्रपन्मारुतो वावसानाः स्वारुधादृष्णस्व निष्काम् तन्वा अश्रुम्भमाना श्रुचीवो हव्यामरुतश्रुतीनाम् श्रुतिरम् श्रुतिभ्यः तेन सुचिजन्मानश्रुत ेषामारुदक्षादयोः भवनाः विषिभिरु अनुस्वधा मायुधैरम् पृच्छमाणाः प्रभुज्ञाजीवते महाम् श्रीप्रणामानि प्रयजवस्थिरध्वम् सहस्रियन्द्यम् भागमेतम् गृहमेधियम् मरुतो जुषध्वम् यजि सुतस्य मरुतो अधीयेच्छावित्रस्य पातिनो हलीमन् मक्षूराजस्वीर्यस्य तातनुमन्य आदभररा वा सोमये मरुतस्वञ्चो यक्षदृशोणसुभयम् अमर्याः एव शुभ्रा वत्सोनप्रेलिनः प्रयोधाः नौ मरुतो मृणन्तु परिभ्यन्तो राशी सुमेके आरे गोभाम्मेभिस्मेवासवो न मध्वम् आ भो होताः तो स्ति गोपा रामयम् जीमे सहस्रहसा नुरुद्वेषो अनरुषे दधन्ति इमे रघ्वन्तिम् मरुतो जुमन्ति वो जुवन्त अपबाध्वम् मृगनस्त माम् विधत्त विश्वम् दनयम् लोकमस्मे मा भोदात्माय राम पश्चाद्दध्वरच्चो विभागे आनस्पार्हे भजतनाम संजे मृगणो भो अस्ति संयधनन्तमन्यभर्जना दूरा जग्धीविक्षु अथ स्वानो मरुतो रुद्वितारोनास्वर्यः भूरिचक्रमरुदपिद्याण्युक्तार्याः सस्यम् ते पुरासीत् मरुद्भिरुग्रप्रदानाशुराः मरुद्भिरिचीरा अस्मे वीरो मारुदृष्टोऽधत्ता अपोजेन धस्व मोको अभिवश्याम तन्नो मरु नो मिन्द्रो आग्निष धीर्मो गृहन्तान् श्याम मरुतामुपस्ते यूजम् पाद स्वस्ति विश्वदानात् यज्ञेषु समासा मदन्ति मृणन्तम्नस्य मन्मस्माकमध्यविधेषु बर्हितये सियामाः ेऽभ्राजन्ते रुक्मैरायुधैस्तनुभिः आरोदीशाला समानमञ्जम् जते सुखे धावो मरुतोमस्तस्यामपि भूमायो अस्तु सुमनिश्च निष्ठा वादेभिस्तिरत पुष्यसे नः मृत सुदासो मरुतोऽव्येभिर्नामभिर्मरो हवींषि यदातनो अमृतस्य प्रजायैकृतराजसूतामघानि अच्छा ीन् सर्वता येन शिरो वध्वयम् दियूयम् पाद स्वस्ति भिस्सदानः रसा कमुखे गणजयो दैत्यश्च ताम् नष्टमान् ीमधित्वाक्षेनात्मस्वेश्वेभीमासस्तु भीमन्यभूयासः प्रेणोऽभिरोदसोतसन्ति विश्वो गोजामन् हरे स्वदृग्तः ीरादिजन्तुम् व्रणस्वार्गाभिरूतिभिस्थिरेण युष्मोदो विप्रो मरुतस्तदस्वी युष्मोदो अर्वासभूरिः सहस्री युष्मोदः सम्राणुतः दिवृत्राम् राजो अस्तु धूतयो देशम् आम् आरुद्रस्य नीषो निवासे भिन्नम् सन्ते मरुतः पुनर्नः यत्सताीमहे पुराणाधर्मुषन्त आराचिद्वेषम् पात स्वस्ति चन्द्रायथ इदमीदम् देवाः सोऽ यच्छत युष्माकम् देवा अवसरीपराजिवश्च रवञ्चनपतिष्ठे अस्माकमध्यमारुदः सुदेशे वरकामिनाः स्मारान्नराधतो देहिन्यत्र गन्तन आचरणो बहिस्त अश्रेधम्बन् ने मधौ स्वाहेहमादराध्वै स स्वश्चिद्धिमन्वाश्रमानाहम् पृष्ठावता इष्टम् सो अभितो मालिषे धन गो नरण्वा समने मधन्तः य स्थिरश्चित्तानीव सोदिभांसतिसूचेष्ठतमिष्ठे न हन्मानाहन्तनाथम् शान्तपना इदम् गनिर्मरुतस्तज्जूजुष्णः युष्मा कोटीरीषादशः ऋगतमरुतोमापभूतन युष्मा कोटीसूदानवः कपय सूर्यत्मजः यज्ञम् मारुतारुणे नयम्ब गङ्गजामहे सुगन्धिम् वृष्टिवर्धनम्बारुकविभवन्धानारुगात् भद्रह्म अपि वादयमनाः ओरिः जसोर्जभ्रवो नागाजयन् वित्रा च वरुणाय सचेत्रादिश प्रियासो अर्जवन् श्रुणन्ताः एकस्य मित्रावरुणान् गजगा गुहे उदे द्विसूर्योऽ इष्टस्य स्था दुर्जगोपायुवर्तेषु पश्यन् अयुक्तसप्तहरितः सुरस्थानिद्रायुवाकस्संयोजनीसोमधो मन्दो असुरासूर्यो अरुहच्छुक्रवर्णाः यस्मादित्याभूरे अर्जमावरुणो हि सन्ति सत्पुत्राः इमे मित्रो वरुणो दूर्भाः चिन्तयन्ति लक्षैः अतेतसं गोपा भजतिकर्म भद्रम् यच्छन् दिवरूढस्तु तस्मिन् लोकम् दधामानम्बुदासः जिम्होत्राभिर्यजे धरिपङ्क् काश्चिद्वरुद्धेणोऽलोकम् श्रेश्वे रामधीषे नासहम् ्रह्माणे माय श्रतौ नमस्य राजः श्रीक्षन्दमन्यम् भगवा नो अन्यवृक्षाय चक्रि सुधातु यम् देव पुरोही तभ्याम् यज्ञे गोनिन्द्रावरुणावतारि दिरोनो ष्टानि दुर्गाभिवृतम् तिरोणी सूर्यस्तवान् अभियो विश्वारा यस्य ब्रह्मायनु अवाधाय त्रणैते रो वरुणा पृथिव्याः प्रतिव दृश्वाद्विहदः सूत्रा नो ततो दशाोषाधेनुवितो अनिमिषम् रक्षमाणा संसामिद्राश्च वरुणस्य धामसुष्णो रोदधीवद्वधे महित्वा अयन्माधा अयज्वरामीराः प्रयज्ञमम् मा भजनम् दिराते अभोदा विश्वाभृढना विवाम् नया सो जिताम् यक्षम् दुरः सजे अनुदाजनाम् नवान्य अभूवन् ज्ञम् मारुदेवाम् निद्रावरुणा समाधावायला ब्रह्म याणि यम् देव पुरोहि तिरुयुवभ्याम् यज्ञेरु निद्रामरुणामगानि विश्वानि दुर्गापि कृतम् यूयम् पात स्वस्तिभिश्च नः ोच मा नत्वा कृतस्तु नो नोमे ो भित्राय वरुणाय भोजो नागतो अर्जुमे अग्रे च दिनस्वस्वरम् श्रुतो रन्धृता नो वरुणो भित्रो अग्नि यच्छम् उपानो अक्रमाणम् पूर्वन्तु भूमिः अधितेत्रासीथान्नो देवान् यज्ञसृजनीनविश्वे मा हेमे भूमपरुनस्य वायोन्मामित्रस्य प्रियरामस्य गृहाम् प्रभावासि सृतम् जीवसे नोगव्यूरिमुक्षणम् कृतेन श्रवजलम् युवारा श्रवमे मित्रावरुणाहेमा नो मित्रो वरुणा जवानस्मने दोताो दन्तु सु विश्वा शुभन्तु यूजम्बा तस्वस्तिभिः सदा नः वेदिषुभगो विश्वरक्षा साधारणः सूर्यो मानोढ्राणाम् चक्षुरुत्रवरूढः स देवः स्तमे वयः समभिव्यक्तवान् श्री उद्वे दिक्षस गीता जनाम् महान् केजुरम् नमः सूर्यस्य समानं स्य विराजछन्द्रमि ूनम् जना सूर्ये रसूतांसि यत्रा चक्रुप्रमृताः गातुमस्मै शेनो नदी अन्नन्वे दिवासां सूरभुदीदे विहे मनमोभिर्मिद्रावरुणोदहव्यैः रुणो अर्यमानस्मने सुधा निः स्वस्तिभिः सदा नः निक्षयम् पारदसपृथिव्याम् प्रभां खृदस्य निर्मियो दजीर्णम् ोः मित्रो अर्यवासुराः सो राजाः सुक्षत्रो वरुणो दृशन्त आराजा नाम हरतस्य गोपा सिन्धुपदी क्षत्रियाजातमर्वा इरान्नो मित्रावृष्टिमवधिस्पन्नो वरुणो देवो अर्यः प्रसाधिष्ठेभिप्रतिभिर्नयन्तु धरिसुदास देवसह देवगोपाः यो वा रक्षदेतमूर्वाम् श्रीनिम् गृणवद्धारयच्च उम् निद्रा वरुणा कृतेन ताराजानासुक्ष्णी सर्पेधाम् ेन सोमो वरुण मेत्रभ्यम् दो वन शुक्रो न वायवे यामि अविष्टम् धियो त्रिकृतम् वरम् धीर्जूयम् पात स्वस्ति भिः प्रथीपां सुरमुदीदेशोक्तैर्मिश्रम्भोभेवरूनम्भूतलक्षम् ेष्ठमसु दाता भर्यादानाः क्षितेः कालतपोजयम् देहे अस्यामादिभयम् वा यावाजयत्रापि पय आमानित्रावरुणा हव्यष्टिम् धृतैर्गव्यो विमुक्षतमिलाभिः प्रती वा मन्त्रमजना दिव्यस्यो ेष स्तोणमितरुभ्यम् सोम स्वक्रोणवायवेयामि अविष्टम् धियोजिगृहम् पुरम् धीर्योयम् आदस्वस्तिभिस्तदा स्तोमो नये तु्याः नभ स्वान्दुविदयोः या धारास्तु असुर्याय प्रमाहसा तानस्तिपादरूपावरो साधय सन्धियागामित्रो अर्जुवा सुवाति तेनो सुप्रावीरक्षणयन् सुम्भो उत स्वराजोऽयीशे प्रतिभां सुनम् हर्यवणम् राजा हीरञ्जय रामकाय समासे इयम् विप्रायसा भिः सह इथम् स्वीमहि भगवत्सूरचक्रगोग्निष्पादिताः श्री देवे मोर्विरथापरिभूतिभिः स्वरमासमानमत्त्वम् साजम् ो नुदीते यतो ह देवनो नो मित्रो अर्जुवा यूयस्य लक्षः तादृतासोहाः च्छा मेन च सूरजाः यदि अलम् शीर्ष्र्ष्णो जगतस्वस्तु ह्रस्वतिम् समादाः हरिको तच्चम् शुकरमुद शरदस्वधनम् वीरेम शरदस्वधनम् आवेदम् वरुणद्विमद् नेत्रो मीलये जिवो धामाभिर्वरुणमित्रशायातमद्रुहातम् भो माधुरी आयातम् मित्रावरुणाजुषाणा बाहूतिह्नरा आतम् भोमादृताजु आम्रथम् नृपदी वरध्यै हरिष्मदामनसा ो वा न धिष्ठामजी करछा दूरुन नितरा विभग्निग्रे सिधानो हस्मे पुरस्ताच्छोय ो नमश्विनाशुभोदास्तो मे श्रीवक्तिना सत्याभिभक्वान् पूर्णेभिर्यानम् रचारिदावसुमतारसेन अवोन्वाम् नो नमश्विना युवा कुरुभुमे लद्वाम् सुमाद्भीवसूयो ी राधो अश्वापिधो अस्मि श्रुता मधूरि राजीमुदेवाश्विभिलम् मे वृद्धा सादरे ब्रह्मयम् विश्वाविष्टम् वा न आपुरम् भेष्टानः सक्तम् सचीपति सची नो अस्तु। अविष्टम् आसु प्रजावध्रेतो अक्रयम्नोऽस्तु आवाम् तु जानास्वरत्नासो देवनीम्बमेमसवाम्बो निधीरातो अस्मे जस्वन्ता हव्यम् मानोणुमित्रु एकस्मिन् योगे पुरवासमाने परीवाम् सप्तश्रवतो रथोगात् न वायन्ति शुभो देवयुक् प्रादेवाम् दूर्षतरणयो वहन्ति भगवद्भ्यो हि भूतम् वेलायामाखले रजेबन्धुम् भूदृताः भिष्टिरम् देवग्याः भगामि श्रीमतम् युवानाय श्रेष्ठम् भक्तिरश्विनाविरावत् त्वन्तसूर्यम् वा तस्वति विला